अथ वैशंपायनवाच वैशम्पायनुवाच अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु महत्सु चोपविष्टेषु गन्धर्वेषु च भारत वेदोपनिषदां वेत्तारशिस्सुरगणार्चितः इतिहासपुराणज्ञः पुराकल्पविशेषवित् पुरा न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः ऐक्यसंयोगनानात्वसमवायविशारदः वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित् कविः परापरविभागज्ञः प्रमाणकृतनिश्चयः पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् उत्तरोत्तरवक्ता च वदतोऽपि बृहस्पतेः धर्मकामार्थमोक्षेशो यथावत्कृतनिश्चयः तथा भुवनकोशस्य सर्वस्यास्य महामतिः प्रत्यक्षदर्शी लोकस्य तिर्यमधस्तथा साङ्ख्ययोगविभागज्ञो निर्विवित् सुरासुरान् सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् षाड्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः युद्धगान्धर्वसेवी च सर्वत्रा प्रतिधस्तथा एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः